अथ द्वात्रिंशः सर्गः ब्रह्मयो निर्महानासीत् कुशो नाम महातपाः अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः समःत्माकुलीनायाम् युक्तायाम् सुमहाबलान् वैदर्भ्याम् जनयामास चतुरः सदृशान्सुतान् कुशाम्बम् कुशनाभम् च असूर्तरजसम् दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः क्रियताम् पालनम् पुत्रा धर्मम् प्राप्स्यथ पुष्कलम् कुशस्य वचनम् श्रुत्वा चत्वारो लोकसत्तमाः निवेशम् चक्रिरे सर्वे पुराणान् रुवरास्तदा कुशाम् वस्तु महातेजाः कौशाम् भीमकरोत्पुरीम् कुशनाभस्तु धर्मात्मा पुरम् चक्रे महोदयम् असूर्तरजसो नाम धर्मारण्यम् महामतिः चक्रे पुरवरम् राजा वसुनाम गिरिव्रजम् एषा वसुमती नाम वसोस्तस्य वसो महात्मनः एते शैलवराः पञ्च प्रकाशन्ते समन्ततः सुमागधीनदी रम्यामागधान् विश्रुता ययौ पञ्चानाम् शैलमुख्यानाम् मध्ये मालेव शोभते सैषा हिमागधी रामवसोस्तस्य महात्मनः हा। पूर्वाभिचरिता राम सुक्षेत्रा स्तु यौवनशालिन्यो रूपवत्यस्वलङ्कृताः उद्यानभूमिमागम्य प्रावृषीवशतः हदाः गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघवा आमोदम् परमं जग्मुर्वराभरणभूषिताः अथ ताश्चारु सर्वाण्यो रूपेणाप्रतिमा भुवि उद्यानभूमिमागम्य तारा इव ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः दृष्ट्वा सर्वात्मकोपायुरिदम् अहम् वक्कामये कामये सर्वा भार्या मम भविष्यथा मानुषस्त्यज्यताम् भावो दीर्घमायुरवाप्स्यथ चलम् हि यौवनम् नित्यम् मानुषेषु विशेषतः अक्षयम् यौवनम् प्राप्ता अमर्यश्च भविष्यथ तस्य तद्वचनम् श्रुत्वा वायोरक्लिष्टकर्मणः अपहास्य ततो वाक्यम् कन्या शतमथा ब्रवीत् अन्तश्चरसि भूतानाम् सर्वेषाम् सुरसत्तमा कुशनाभसुता देव समस्ताः सुरसत्तमा स्थानाच्यापयितुम् देवम् रक्षामस्तु मा भूत्सकालो दुर्मेधः पितरम् सत्यवादिनम् अवमन्यस्वधर्मेण वरमुपास्महे पिता हि प्रभुरस्माकम् दैवतम् परमम् च सः यस्य नो दास्यति पिता स नो भर्ता भविष्यति तासाम् त्ववचनम् श्रुत्वा हरिः परमकोपनः प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः अरत्निमात्राकृतयो भग्नगात्राभयार्दिताः ताः कन्या वायुना भग्ना विविश नृपतेर्ग्रहम् प्रविश्यज सु सम्भ्रान्ताः सलज्जाः सास्रलोचनाः सचतादयिता भग्नाः कन्याः परमशोभनाः दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् किमिदम् कथ्यताम् पुत्रः को धर्ममवमन्यते कब्जा कैल गता सर्वाशेषंत नषतराजा भी सधि सदे तत इशे श्रीमद् रे वाकीए आदिकाव्ये का्ये बांश